इति ब्रुवन्तं तमोवाचसवृती न वाच्यमित्थं पुरुषोत्तमत्वया त्वमेव साक्षात्करणीय इत्यतः किमस्ति कार्यं गुरुयोगिनामपि उदीर्णरागप्रतिरोधकं जनैरभीक्ष्णमक्षुण्णतयाति दुर्गमम् उपेयुषोमोक्षपथं मनस्विनस्त्वमग्रभूमिर्निरपाय संश्रयः एवं श्रीकृष्णस्य स्तुतिमनुवर्तते नारदः उदासितारं निगृहीतमानसैर्गृहीतमध्यात्मदृशा कथञ्चन बहिर्विकारं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरुषं पुराविदः निवेशयामासीथ हेलयोद्धृतं फणाभृतां छादनमेकमोकसः डगत्र्यैकस्थपतिस्त्वमुट्ठकैरहीश्वरस्तं भशिरः सुभूतलम् तात्पर्यं वराहावतारे लोकत्रयाधिपतिरूपेण लीलया भूतलमुद्धृत्य आदिशेषस्य फणासहस्रस्तम्भे निवेशितवान् भवान् इति नारदः श्रीकृष्णं सुगुण सगुणरूपेण तस्य अवतारवैभवादीनि प्रस्तोतुमुपचक्रमे उपचक्रमे श्लोकैः निवेशयामासिथ हेलयोद्धृतं फणाभृतां ठादनमेकमौकसः जगत्त्रयैकस्थपतिस्त्वमुक्षकैरहीश्वरस्तंभशिरः सुभूतलम् जगत्त्रयैकस्थशिल् स्थपतिः नाम लोकत्रयस्य एकैकशिल्पी एक त्वं भवान् हेलया लीलया उधत फणाभृत ओकसनल ना पाताल्कन आवरण भूतल उठक उन्नतेषु अहींभशिस्सु निवेशयासीथ निवेशवा अनन्य अनन्यगुर्यास्तव केन केवलः पुराणमूर्तेर्ममावगम्यते मनुष्यजन्माणि सुरासुरान् गुणैः भवान् भवैः करोत्यप्तः अत्र तात्पर्यं भवान् महामहिमोपेतवान् मानुष एव ते महिमा दुरवगाहोऽस्ति अमानुषस्तु इतोपि दुरवगा संसारनिवर्तने भवान् देवासुरान् अतिशयते प्रदक्षेतः एवं भवति अनन्यकुर्याः तव केन केवलः पुराणमूर्तेः महिमा अवगम्यते मनुष्यजन्मा अपि सुरासुरान् गुणैः भवच्छेदकरैः करोति अधः इति नाम श्रीकृष्णावतारं वर्णयन् एवं वदति रामावतारं वा निजौडसोढासयितुं जगद्रुहामुपाजिथानमहीतलं यदि समाहितैरप्यनिरूपितस्ततः पदं दृशः स्याः कथमीश मादृशां पदच्छेदः कृष्टपदैपदानामर्थैः समेतम् निडौजसा जगद्रुहामुड्ढासयितुं नामहिंसितुं महीतलं नोपाजिहीथा यदि नावतरेष्ठेत् ततः समाहितैरपि अनिरूपितानुर्माहितैरपि अनिरूपितश मादृशां दृशः दृष्टेः पदं कथं स्यात् तात्पर्यम् लोकद्रोहिणां कंसादीनां संहाराय स्वर्गात् नागतोऽसि यदि योगिभिरनुगृहीतो भवान् मादृशां चर्मचक्षुषां कथं दृष्टिगोचरो भवे भवती न भवत्येव पृथिव्याम् अवतारितवान् इति कारणेनैव मादृशाम् भवदीयसाक्षात्कारो भवति अतः साक्षात्कार एव मम अत्रागमनस्य प्रयोजनं नान्यदिति नारदः कृष्णमुवाच पुनः श्लोकस्य पठनं जगदृशाम् उपाजिहीथानमहीतलं यदि समाहितैरप्यनिरुपितस्ततः पदं दृशः स्याः कथमीशमादृशाम् अग्रिमश्लोकः उपप्लुतं पातु मदो त्वमेव विश्वं भरविश्वमीशिषे ऋतेरविःख्रायितुं क्रमेत अर्थेन समेतं। क्लिष्टपदानामर्थेन समेतं। उपप्लुतं अदः विश्वम्भरमदोद्धृतैः उपप्लुतम् अधः पातुषे नाम शक्तोऽसि क्षपा नाम रात्या तमः कांड वर्गैः मलीनं नभ गगनं क्षपातमस्काण् क्षायितुं प्रक्षायितुं रवे हृते कः क्षमते न कोऽपीत्यर्थः तात्पर्यं नारदः वदति हे विश्वरक्षक श्रीकृष्णभवान् विश्वं विश्वं बिभर्ति कंसादिदानवैः पीडितमिदं विश्वं रक्षितुं भवानेव शक्तोऽसि नान्यः यः बिभर्ति सः एव रक्षको भवेत् अन्धकारेण मलिनं गगनं क्षायितुं शोधयितुं निवारयितुं सूर्य एव समर्थः खलु पुनः श्लोकस्य, श्लोकस्य पठनम् उपप्लुतं पातु मदोमदोधतैस्त्वमेव भर विश्वं भरविश्वमीशिषे उपप्लुतं पातु मदोमदोधतैस्त्वमेव भर विश्वं भरविश्वमीशिषे ऋतैरविः क्षायितुं क्षमेत करोति कंसादिमहीभृतां वधाज्जनो मृगाणामिव यत्तवस्तवम् हरेरिरण्याक्षपुरःसरासुरद्विपद्विषः प्रत्युतसा तिरस्क्रिया तात्पर्यं नारद एव श्रीकृष्णं पुनः वदत्येवम् कंसादिराक्षसाः क्षुद्रमृगतुल्याः तेषां हननेन जनाः त्वां स्तुवन्ति परन्तु गडघातिनः सिंहस्य मृगवधवर्णनमिव एष स्तवः भवतः अवमानः एव गडघातिसिंहः क्षुद्रमृगाह्नन्ति चेत् तत् हननं तस्य अवमान एव। एवं हिरण्याक्षप्रभृति हन, हन्तुस्तव श्रीकृष्णस्य वराहावतारे कंसप्रभृतिक्षुद्रनृपाणां वधः अवमान एवं कथनीन शिशुपा, शिशुपालादिमहासुरासन्तीति सूच्यते च पुनः श्लोकस्य पठनम् करोति कंसादिमहि भृतां वधाज्जनो मृगाणामिव यत्तवस्तवं हरेर्हिरण्याक्षपुरःसरासुरद्विपद्विषः प्रत्युतत्सा तिरस्क्रिया करोति कंसादिमहिभृतां वधानो मृगाणामिव यत्तवस्तवम् हरिर्हिरण्याक्षपुरःसरासुरद्विपद्विषः प्रत्युतसा तिरस्क्रिया अग्रे नोर्तते प्रवृत्त एव स्वयमुद्धृतश्रमः क्रमेण पेष्टुं भुवनद्विषामसि तथापि लो लो प्रवृत्त एव स्वयमुद्धृतश्रमः क्रमेण पेष्टुम् भुवनद्विषामसि तथापि वाचालतया युनक्ति माम् मिथस्त्वदाभाषणलोलुपं मनः तात्पर्यं हे भगवन् लोकत्रये दुष्टशिक्षणाय त्वमुद्युक्त एवासि तथापि एकान्ते त्वया सह सल्लापाय उत्सुकोऽस्मि इति नारदः श्रीकृष्णमुवाच प्रदच्छेदः इति त्वम् इति अध्याहार्यः उड्ढितश्रमः ्रमेण भुवन शत्रुण पेष्टु स्वयं प्रवृत्था मिथ नामदा पुनः श्लोकस्य पठनम् प्रवृत्त स्वयंढित्र क्रमेण पेष्टुं भुवनद्विषामसि तथापि वाचालतयायुनक्ति मां मिथस्त्वदाभाषणलोलुपं मनः तदिन्द्रसन्दिष्टमुपेन्द्र यद्वचक्षणं मया समस्तकार्ये तात्पर्यं नारदः श्रीकृष्णं वदति हे उपेन्द्र लोकहितं सन्देशं भवते प्रेषितवान् इन्द्रः इन्द्रस्य समस्तकार्याणि भवानेव पश्यति अतः तत्सन्देशं विना विलम्बं शृणोतु इति पुनः पठामि श्लोकं तदिन्द्रसन्दष्टमुपेन्द्र यद्वटः क्षणं समस्तकार्ये रुगतेन समस्तकार्येषु गतेन निशम्यताम् इति पुनः इदानीं पदच्छेदः क्रियते उपेन्द्र इन्द्रन्दिष्टं विश्वजनञ्जन विश्वजनीनं नाम विश्वस्य हितकरं यद्वचः क्षणं मया उच्यते तद्वचः अहिद्विषः नाम अहिम् इत्युक्ते वृत्रासुरम् अहिद्विषः नाम इन्द्रस्य समस्तकार्येषु धुर्यतां धुरन्धरत्वं भारं गतेन भवता निशम्यताम् इति पुनः श्लोकं पठामि तदिन्द्रसन्दिष्टमुपेन्द्र यद्वचः क्षणं मया विश्वजनीनमुच्यते समस्तकार्येषु गतेन धुर्यता महिद्विषस्तद्भवता निशम्यताम् अभूतभूमिः प्रतिपक्षजन्मनां भियां तनूजस्तपनद्युतिर्दिते यमिन्द्रशब्दार्थनिषूदनं हरेर्हरण्यपूर्वं कशिपुं प्रचक्षते तात्पर्यं नारदः शिशुपालवध स्तावनात् प्राक्तस्य तस्य पूर्वजन्मवृत्तान्तं श्रीकृष्णाय कथयति इन्द्रस्य शत्रुः निर्भीकः हिरण्यकश हिरण्यकशिपोर्नाम दैत्य एको पुरा आसीत् सः इन्द्रस्य ऐश्वर्यम् अपहर्तुमिच्छति स्म सः सूर्य इव महान् तेजस्वी आसीत् इति इदानीं प्रतिपदार्था प्रदच्छेदं कृत्वा क्लिष्टपदानाम् अर्थं पश्यामः प्रतिपक्षजन्मनाम, शात्रवजनितानां प्रतिपक्षजन्मनाम, भियाम् अभूमिः अविषयः अगोचरः तपनद्युतिः सूर्य इव ते, तेजशालीतपनद्युतिः शा, दितेः तनूजः नाम पुत्रः अभूत् हरेः इन्द्रशब्दार्थनिषूदनम् इन्द्रशब्दार्थो नाम परमैश्वर्यम् यम् तनूजम िरण्यपूर्वं कशिपुं प्रचक्षते ब्रुवन्ति पुनः श्लोकं श्लोकं पठामि अभूदभूमिः प्रतिपक्षजन्मनां भियां तनूजस्तपनद्युतिर्दिते यमिन्द्रशब्दार्थनिषूदनं हरेः हर हिरण्यपूर्वं कशिपुं प्रचक्षते समत्सरेणा सुर उषा, चिराय नाम्नः प्रथमाभिधेयताम् भयस्य पूर्वावतरस्तरस्विना तात्पर्यं सः हिरण्यकशिपुः अन्यान् द्वेष्टि सः असुर इति अन्वर्थः अभवत् सः अतीव बलवान् अस्मादेव प्रप्रथमं देवानां भयमासीच्छ इति नारदः श्रीकृष्णं वदति प्रतिपदार्थः समस् समत्सरेण इति स्पष्टमस्ति पदच्छेदं करोमि तत्र कृष्णपदानामेव पदानामे अर्थान् पदानामेव अर्थान् वदामि समत्सरेण असुर इति नाम्नः क्षिराय प्रथमाभिधेयताम् उपेयुषा सार्थकतां प्राप्नुवता तरस्विना बलवता येन हिरण्यकश्यपुना द्युसद्युसदां नाम देवानां मनस्सु भयस्य पूर्वावतरः प्रथमप्रवेशः न्यधीयत निहितः श्लोकं पुनः पुनः पठामि संवत्सरेणा सुर उषा चिराय नाम्नः प्रथमाभिधेयताम् भयस्य पूर्वावतरस्तरस्विना मनस्सु येनुसदां न्यधीयत दिशामधीशांश्चतुरो यतः सुरानपास्यता तं रागहृताः सिषेविरे अवापुरारभ्यततश्चला इति प्रवादमुच्छैरयशस्करं श्रियः तात्पर्यं नारद एव वदत्येवं श्रियः सदा वीर हिण्यकशिपु वीर अभवत सर्वान् जितवा अत शिय दिखाला हिण्यकशिपोश्व्येण तस्रागे चाकृा हिण्यकशिपु आश्रि सही अतएव तदाभ्य शिश्चला अभवं पुनः पठामि श्लोकम् दिशामधीशाश्चतुरो यतस्सुरान्नपास्यतां रागहृताः सिषेविरे अवापुरारभ्यततश्चला इति प्रवादमुच्छैयशस्करं श्रियः अग्रे पुराणि दुर्गाणि निशातमायुधम् बलानि शूराणि घनाश्च कञ्चुकाः स्वरूपशोभैकफलानि नाकिनाम् गणैर्यमाशङ्क्यतदादिचक्रिडे तात्पर्यम् हिण्यकशिपू दृष्ट् देवास्व भीता सकी सहजशोभामी पट्टापरीखादिदुर्गा आयुध निषाता चतुंगबला शूराण कवचा दृढ़ाच चक्रु शत्रो शत्रोः दण्डयात्रासमये वयमपि एवंविधसन्नाहन् सन्नाहान् कुर्मः एव खलु पुनः श्लोकं पठामि पुराणि दुर्गाणि निषातमायुधं बलानि शूराणि घनाश्च कञ्चुका स्वरूपशोभैकफलानि नाकिनाम् पदच्छेदः कदा क्वचित् पदार्थः नाकिनाम नाम, नाम सुराणां गणै्यम् आशङ्क्य तदादिस्वरूपशोभैकफलानि पुराणि दुर्गाणि आयुधं निषातम् नाम निशितं बलानि शूराणि कञ्चुकाः कवचाः घनाश्च अग्रे पठामः भुवनान्तरेषु श्रियस्दाश्रयः श्रियः अकारितस्मै मुकुटोपलस्खलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशै तात्पर्यं यदा हिरण्यकशिपुः लोकेषु सञ्चरति तदा तत्रत्यदेवाः सर्वे तस्य दिशम् अनुसृत्य तस्यै दिशे शिरसि बद्धाञ्जलिभिः नमस्कुर्वन्ति स्म सिष्णुः अकारितस्यै मुकुटो पदच्छेदः पदार्थ अपि भुवनान्तरेषु संचरिष्णुः श्रियः आश्रयः स यदृक्षया यां दिशाम् आश्रितवान् तस्यै दिशे त्रिसन्ध्यम् मुकुटोपलस्खलत्करैः शिरसि बद्धाञ्जलिभिः मुकुटोपलस्खलत्करैः त्रिदशैः नमः अकारि कृतः अग्रे सटाक्षटाद्भिन्नघनेन बिभ्रता नृसिंहसै सठाठाभिन्नघनेन बिभ्रता नृसिंहसिंही मतनुं तनुं त्वया समुग्धकान्तास्तनसङ्गभङ्गुरैविदारं प्रतिचस्करेण खैः पुनः पठामि सटाठटाभिन्नघनेन बिभ्रता नृसिंहसिंही मत्तनुं तनुं त्वया समुग्धकान्तास्तनसङ्गभङ्गुरैविदारं प्रतिचक्ररेत् प्रतिचस्करेत् नखै तात्पर्यं भगवान् भवानेव नृसिंहरूपेण तंशिप्पुं दैत्यं कुटिलैः नखैः वक्षः विदार्य हन्तवान् मारितवान् प्रतिपदार्थः न प्रदच्छेदः क्वचित् प्रतिपदार्थः न नृसि अतनु संहित सटाठटा भिन्नघन सटा नाम, नाम समूह भिन्न घन मेघेन स्तन युगकांताभंगुर कान्ता संग न्तास्तनसङ्गभङ्गुरैः कुटिलैः वक्षरोविदारं प्रतिठस्करे हतः इति पुनः श्लोकं पठामि स्मर्यतां केसरान्नघनेन बिभ्रता नृसिंहसंहीमतनुं तनुं त्वया समुग्धकान्तास्तनसङ्गभङ्गुरै उरोविदारं प्रतिचस्करेण खैः अग्रे पठामः विनोदमिच्छन्नमिच्छन्नथब्दर्पजन्मनो रणेन कण्ड्वास्त्रिदशैः समं पुनः स रावणो नाम निकामभीषणम् हिरण्यकशिपुरेव पुनर्जन्मनि देवैः सहरणकण्डुतिवाण्ठया नष्टं सर्वं पुनर्वशमानेतुं रावणो नाम भूत, पुनः श्लोकं पठामि रणेन कण्ड्वास्त्रिदशैः समं पुनः स रावणो दिवः क्षतरक्षणं नाम नष्टभागस्य भाग, रक्षकम् दमत, नाम अतीव भयङ्करम् पुनः श्लोकः एकवारं पठ्यतेनो रणै न कण्ड्वास्त्रिदशैः समं पुनः स रावणो नाम निकामभीषणं बभूव क्षतरक्षणं दिवः Okay. भुर्बुभूषुर्भुवनत्र यस्य यः शिरोतिरागाद्दशमं चिकीर्चिकर्तिषु अतर्कयद्विघ्नमिवेष्टसाहसः प्रसादमिठ्ठसदृशं पिनाकिनः पुनः श्लोकं पठामिषुर्भुवनत्र यस्य यः शिरोतिरागाद्दशमं चिकीर्षिकी चिकर्तिषु अतर्कयद्विघ्नमिवेष्टसाहसः प्रसादमिठ्ठासदृशं पिनाकिनः रावणः लोकत्रयस्य सर्वाधिकारं प्राप्तुं परमशिवं प्रति तपःकुर्वन् स्वस्य दशमं शिरःशिवस्य प्रीत्यै खण्डितुमुद्युक्तः तत् कार्यं विघ्नमिव चिन्तितवान् परन्तु सपदि शिवः अभिलषितसर्वाधिपत्यरूप ीणनाय अग्नौ नवशिरांसि आहुतीकृत्य दशमस्य आहुतिसमये शिवात्वरं प्राप्तवानिति पुराणे पुनः श्लोकम् एकवारं भुवनत्रयस्यय। शिरोतिरागाद्दशर्तिषुद्विघ्नमिवेष्टसाहसमिसदृशं पिनाकिनः यः भुवनत्रयस्य प्रभुः बभूषुरागात् दशमं, प्रभु। तु। दशमं शिरः साहसप्रिय ृशं पिनाकिनः प्रतिबन्धकमिव अतर्कयत् पुनः श्लोकमेकवारं पठामि प्रभुर्भुभूषुर्भुवनत्रयश्च यः शिरोतिरागाद् दशमं चिक्कर्त्रिषु अतर्कयद्विघ्नमिवेष्टसाहसः प्रसादमि सदृशं पिनाकिनः अग्रे पठामः पुरीमवस्कन्दलुनीहिनन्दनं मुषाणरत्नानि हरामराङ्गनाः आस्वास त्पर्यं प्रथमं पश्यामः बलवान् रावण इन्द्रं विरुध्य अमरावतीमारु अमरावतीम् आक्रमितुं नन्दनवनम् ेत्तुं रत्नानि देवतास्त्रियश्च अपहर्तुं सैनिकानादिश्य अहश्च रात्रिश्च दिवि कल्लोलं कल्पितवान् इति पुनः श्लोकं पठामि नन्दनं मुषाणरत्नानि हराम् विगृह्यचक्रेद्विषा बली य इत्थमस्वास्थ्यम् अहर्दिवं दिवः पदच्छेदः यः बली नमुचिद्विषा नाम इन्द्रेण नमुचिद्विषः इन्द्रः नमुचिद्विषा विगृह्य अवस्कन्द अवस्कन्द इत्थं अस्वास्थ्यं उपद्रवं चक्रे चक्कार पुनः श्लोकमेकवारं पठामि पुरीम नन्दनं मुषाणरत्नानि हराङ्गना विगृह्यचक्रे न इत्थमस्वास् लीलयातानि न भर्तुर्बभ्रमोर्न चित्रमुक्षैश्रवसः पदक्रमम् अनुद्रुतः संयति येन केवलं बलस्य शत्रुः प्रशशंसशीघ्रताम् तात्पर्यम् रावणकृतसङ्क्षोभेण इन्द्रस्य मतिश्चलिता स स्वस्य वाहनानि ऐरावतं वा उट्टैश्रवसं वा प्रशंसितुम् अशक्तोऽभवत् सलीलयातानि न भर्तुरभ्रमोर्नचित्रमुक्षैश्रवसः पदक्रमम् संयति येन केवलं शत्रुः प्रशशंसशीघ्रतरा पदक्षेदः संयति नाम युद्धे येन अनुद्रुतः अनुधावितः बलस्य शत्रुः इन्द्रः अभ्रमो भर्तुः ऐरावतस्य सलीलयातानि मन्दयानानि न प्रशशंस न श्लाघितवान् उक्षैश्रवसः अश्वस्य चित्रं पदं चित्रविचित्रपदगमनं न प्रशशंस न श्लाघितवान् केवलं शीघ्रतां शीघ्रता शीघ्रगामित्वमेव प्रशशंस पुनः वदामि श्लोकं सलीलयातानि सलीलयातानि भर्तुरभ्रमोर्नच्छित्रमुैश्रवसः पदक्रमम् पदक्रमं। संयति येन केवलं बलस्य शत्रुः प्रशशंसशीघ्रताम् <laughs> संहति नाम युद्धे केवलं स्वस्य अश्वस्य शीघ्रतां प्रशंसितवान् एषः इन्द्रः अग्रे पठामः अशक्नुवं सोढुमधीरलोचनः सहस्रश् सहस्ररश्मेरिवयस्य दर्शनम् ्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद्दिवसा निकौशिकः तात्पर्यं सूर्यात् उलूकः यथा भीतः सन् गुहायां तिष्ठति तथा इन्द्रोऽपि रावणाद्भीतः हिमवत्पर्वतस्य गुहायाम् तिष्ठति रावणात् इन्द्रः अतीवभीतो भवतीत्यर्थः इन्द्रः उलूकेन उपमितः रावणः सूर्येणोपमितः इव इति उपमावाचकम्यस्ति अतः उपमालङ्कारः कौशिक इति पदस्य उलूक इति इन्द्र इति अर्थद्वयेन श्लेषालङ्कारोऽप्यस्ति उलूकः दिवा नेत्राभ्यां द्रष्टुं न शक्नोति अस्ति अतःस्तस्य दिवा भीत इति नाम सार्थकम् इन्द्रस्य नेत्राणि सहस्रम् अतः तस्य दृष्टिः अस्थिरा उलूकस्य दृष्टिरपि न स्थिरा दिवास न पश्यति रात्रेव पश्यति भावपि भीतावेव पुनः श्लोकं पठामि एकवारम् अशक्नुवंसोढुमधीरलोचनः सहस्ररश्मेरिवयस्य दर्शनं प्रविश्य हिमाद्रिगुहाग्रहान्तरं निनाय बिभ्यद्दिवसानि कौशिकः बृहत् ठिलानिष्ठुरकण्ठघट्टनात् बृहत्थिलानिष्ठुरकण्ठघट्ट विकीर्णलोलाग्निकणं सुरद्विषः जगत्प्रभोरप्रसहिष्णुवैष्णवम् न च क्रमस्याक्रमताधिकन्धरम् बृहच्छिलानिष्ठुरकण्ठघट्टनात् विकीर्णलोलाग्निकणं सुरद्विषः जगत्प्रभु जगत्प्रभोरप्रसहिष्णुवैष्णवं न च क्रमस्याक्रमताधिकन्दरम् तात्पर्यं विस्फुलिङ्गैः कणकणायमाणं विष्णोः सुदर्शन कंठे अर्थात चक्र रावण सेपत अर्थाण दृष्ट न पति रावण से दृष्टि लोल कणं अप्रहसहिष्णु ठघट्टीर्णलोलिक वैष्णव विष्णुसंबद चक्रं भ्रठिलाष्ठा विकीर्णलोल अग्निणम अप्रसहिष्णु जगत अस्य सुरद्विशः जगत् असुष नाम ग्रीवाया उपरी न आक्रमत श्लोकमेक पठा घट्टिलानिष्ठुरकण्ठघट्टनात् विकीर्णलोलाग्निकणं सुरद्विषः जगत्प्रभोरप्रसहिष्णुवैष्णवं न च क्रमस्या नाम ग्रीवायाः उपरि स्मर्तव्यम् अस्तु अग्नेसर अग्रेसरामः विभिन्नशङ्खकलुषीभवन्मुहुः मदेन दन्तीव मनुष्यधर्मणः निरस्तगाम्भीर्यमपास्तपुष्पकम् प्रकम्पयामासनमानसं नसः तात्पर्यं यथागजः च करोति तथा रावणः अधिकारगर्वेण कुबेरस्य मनः गाम्भीर्यरहितम् शङ्खनिधिं शङ्खरहितं पुष्पकविमानं पुष्पक, पुष्परहितं च कुर्वन् क्षोभयति पुनः पठामि विभिन्नशङ्खकलुषीभवन्मुहुः मदेन दन्तीव मनुष्यधर्मणः निरस्तगाम्भीर्यमपास्तपुष्पकम् मदेन दन्ती इव विभिन्नशङ्कः विघट्टितशङ्कश्च निरस्तगाम्भीर्यं निरस्तीकृतगाम्भीर्यम् आपा अपास्तपुष्पकं ध्वंसितपुष्पं मनुष्यधर्मणः कुबेरस्य मनुष्यधर्मा धर्म नाम कुबेरः इति ज्ञायतेन मानसं मानसंसरश्च मुहुः न प्रकम्पयामास न क्षुभितवान् इति न क्षुभितवान् इति न प्रकम्पयामास नो द्विवारं नकारः उक्तः अत्र पुनः श्लोकस्य पठनं विभिन्नशङ्खकलुषीभवन्मुहुः मदीनदन्तीव मनुष्यधर्मणः निरस्तगाम्भीर्यमपास्तपुष्पकं प्रकम्पयामास न मानसं न सः रणीषु तस्य प्रहितः प्रथेतसा सरोषहुङ्कारपराङ्मुखीकृताः प्रहर्तुरेवोरगराजराज्जवो जवेन कण्ठम् सभयाः प्रपेदिरे रावणः वरुणेन युद्धमकरोत् युद्धे वरुणः रावणस्य उपरि नागपाशान् प्रेषितवान् रावणः तान् पाशान् तान पाशान् पाशान रोषेण वरुणस्य उपर्येव प्रावर्तितवान् ते नागपाशाः पुनरागत्य वरुणस्य कण्ठं गृहीतवन्तः पुनः श्लोकं पठामि रणेषु प्रहितः प्रचेतसा रणेषु तस्य प्रहितः प्रचेतसा सरोषहुङ्कारपराङ्मुखामुखीकृता प्रहृत्तुेवो रगराजरेन कण्ठं सभयाः प्रपेदिरे पदार्थं पश्यामः प्रतिपदार्थम् यत, प्रचेतसा प्रचेत, नाम यथोचितं रणेषु प्रटेतसा प्रहिताः प्रेषिताः रज्जवः तस्य सरोषहुङ्कारपराङ्मुखीकृता जवेन प्रहर्तु प्रहर्तुः कण्ठमेव पेतिरे प्रापु पुनः पठामि रणेषु तस्य प्रहितः प्रचेतसा सरोषहुङ्कारपराङ्मुखीकृता प्रहर्तुरेवो र... प्रहर्तुरेवो रगा प्रहर्तुरेवो रगराजरजवो जवेन कण्ठं सभया रे अग्रे परेत भर्तुर् महिषो मुनाधनुर् भर्तुर्महिषो मुनाधनुर्विधातुमुत्खातविषाणमण्डल हृतेपि पिभारे महतस्तपाभरात् उवाह दुःख ृ शिरः तात्पर्यं पश्यामः रावणः शाङ्गं धनुः निर्मातुं यमस्य वाहनस्य महिषस्य शृङ्गौ उत्पाटितवान् अनेन कर्मणा महिषः लज्जितः दुःखेन स्वस्य शिरः अवनत अवनतम् अकरोत् शुंगोत्टन महिषा भारे ने महिष भारम वहती कथनं विरध्यते अत विरोधाभासो नाम एतत परिहारस्तु अलंकारोस्तहस्त विषाणभारस्य अभावेऽपि शिरोवनमनेन त्रपाभारोऽस्तीति कथनेन विरोधः परिह्रियते यमस्य पराभवः सूचितोस्ति इदानीं पुनः श्लोकं पठामः प्रे परेतभर्तुर्महिषो मुनाधनुर्विधातु खातविषाणमण्डलः कृतेऽपि भारे महतस्त्रपाभराद्वाह दुखेन भृशानतं शिरः प्रदखेदं पश्यामः अमुना धनुः विधातुम् उत्खात उत्खातविषाण नाम शृङ्गयोः मण्डलः वलयः भर्म यम से महिष्वाहनम भारे हृते भारे ने महतरा लज्जा भ्रृशानतम भृश आनत दुखेन वाह। पुनः श्लोकं पठामः परेत शिरः। भर्तुर्मषोमुनाधनुर्विधातुमुत्खातविषाणमण्डलः हृतेऽपिभरात् नाम लज्जाभारात् इति अत्र समीचीनमेव अस्ति कृपाभरः इति ठन्दो ठन्दः थंद, ठन्दसोठितम् अस्ति छन्दसः उठितमस्ति अग्रे पश्यामः स्पृशन् सुशङ्कः समये सुपि स्थितः कराग्रैः असमग्रपातिभिः रावणस्य अन्तःपुरे सूर्यः ग्रीष्मकालेपि भीतभीतः प्रकाशते तस्य किरणानि मन्दोष्णानि सन्ति लेशमात्रौष्ण्येन रावणस्य स्त्रीणां मुखेषु स्वेदबिन्दवः मौक्तिकानीव भासन्ते सूर्योऽपि रावणाद् बिभेति स्वेदबिन्दवः मौक्तिकानीव सन्तीत्यत्र औपम्यं दृश्यते पुनः पश्यामः श्लोकम् स्पृशन् च सशङ्कः समये सुपि स्थितः कराग्रैर असमग्रपातिभिः अघर्मघर्मोदकबिन्दुमौक्तिकैः अलञ्छकारास्य वधूरहस्करः पदच्छेदं पश्यामः अहस्करः शु समये ग्रीष्मर्तौ आषाढमासे इति स्थितोपि असमग्रपातिभिः कराग्रैः नाम किरणैः सशङ्कः स्पृशन् साशङ्कं स्पृशन् अस्य वधूः अघर्म घर्मोदकबिन्दुमौक्तिकैः अघर्म नाम उष्णरहित घर्मोदकबिन्दुः स्वेदबिन्दुः मौक्तिकैः अलञ्चकारीण गृहान्मुञ्चता मनस्विनी कयितुं पटीयसा विलासिनस्तस्य वितन्वतारतिंर्मसाक्षिव्यमकारिणेन्दुना इदानीं तात्पर्यं पश्यामः चन्द्रः रावणस्य शुक्लपक्षे इव कृष्णपक्षेऽपि सदा षोडशकलाभि नर्म सचीवा, नर्म सचीवा भीत्या यथा निवस यहां राजसचिव राजानपुरे स्थि स्वयं तत्रत्य स्त्रीण रागं वर्धय वशवर्ती भवती तथा वशवर्तीवतींद्रोपी रावणस्यापुरे वसन स्वयं रागं अंतुरस्त्रीण रागम वर्धयि आनंदमच रावणी भीत सन् वशवर्ती वर्तन श्लोकं पढ़ा कलासमग्रेण गृहाणमुञ्चता मनस्विनीरुत्कयितुं पटीयसा विलासिनस्तस्य वितन्वतारतिं नर्मसाक्षिव्यम् अकारिनेन्दुना पुनः द्विवारं नकारः दृश्यते पदार्थं पश्यामः यथोचितं कलासमग्रेण गृहान् अमुञ्चता मनस्विनी। उत्कयितुम् उत्सुकाः कर्तुं मानभेद मानभेदछतुरेण रतिम। वितन्वता रतिं वर्धयता इन्दुना विलासिनस्तस्य नर्मसाचिव्यं न अकारिण पुनः पठामः श्लोकं कलासमग्रेण गृहान्मुञ्चता मनस्विनीरुत्कयितुं पटीयसा विलासिनस्तस्य वितन्वतारतिं न नर्मसाचिव्यमकारिणेन्दुना कलासमग्रेण गृहान्मुञ्चता मनस्विनीरुत्कयितुं पटीयसा विलासिनस्तस्य वितन्वतारतिं न नर्म साचिव्यमकारिणेन्दुना विदग्धलीलो विदग्धलीलोचितदन्तपत्रिका विधित्सया नूनमनेन मानिना न जातु वैनायकमेकमुद्धृतं विषाणमद्यापि पुनः प्ररोहति तात्पर्यम् रावणः स्वस्य अन्तःपुरस्त्रीणां दन्तपत्रिका नाम, नाम कर्णभूषणं निर्मातुं विनायकस्य दन्तद्वये एकम् उत्पाटितवान् स दन्तः अद्यापि न प्ररोहति पुनः पश्यामः विदग्धलीला विदग्धलीलोचितदन्तपत्रिका विधित्सया नूनमनेनधृतंपि पुनः प्ररोहति मानिना अहंकारिना अनेन विदग्धलीलोचितदन्तपत्रिकाविधित्सया अत्र विदग्धलीला नाम चतुर विलासिनी नाम नाम चुरलासीना विदीलोचिति विधातु कर्णभूषण अस्त जातु विधाठया वैनायकं एकं वैनायक विषाण अद्याहति